अथ सप्तचत्वारिंशः सर्गः प्रभातायाम् तु शर्वर्याम् पौरास्ते राघवम् विना शोकोपहत निश्चेष्टा बभूर्हत चेतसः शोकजाश्वपरिद्यूना वीक्षमाणास्ततस्ततः आलोकमपि रामस्य न पश्यन्ति स्म दुःखिताः ते विषादार्तवदनारहितास्तेन धीमता कृपण करुवाचो वद मनीषिणस्तु निद्रांपहत चेतसा नश्याम हे राूरस्कमुज कथम रामो महाबाहु सी तथ क्रिय भक्त जनम्य प्रभासन्तापसो गो ना पालयति पिता पुत्रा पौरसान कथम् रघूणाम् सश्रेष्ठस्त्यक्त्वारोऽपि न गतः इहैव निधनम् याममहाप्रस्थानमेव रामेण रहितानाम् नो किमर्थम् जीवितम् सन्ति शुष्काणि प्रभूतानि महान्ति च तैः प्रज्वाल्यचिताम् सर्वे प्रविशामोऽथवा वयम् किम् वक्ष्यामो महाबाहुरणसूयः प्रियम् वदः नीतः स राघवोऽस्माभिरिति वक्तुम् कथम् क्षमम् सा नूनम् नगरीदीना दृष्ट्वाऽस्मान् राघवम् विना भविष्यति निरानन्दासस्त्री बालवयोधिका निर्यातास्तेन वीरेण सह महात्मना विहीनास्तेन च पुनः कथम् द्रक्ष्याम ताम् पुरी बहुधा वाचो बाहुमुद्यम्यते विलपन्ति स्म दुःखार्ता हृतवत्सा इवाग्र्यगाः ततो मार्गानुसारेण गत्वा किञ्चित्ततः क्षणम् मार्गलाशाद्विषादेन इति तदा अयोध्यामगमन् सर्वे पुरीम् व्यथितसज्जनाम् आलोक्य नगरीम् ताम् च क्षयव्याकुलमानसाः आवर्तयन्त एषा रामेण नगरीरहिता नातिशोभते आपगागरुडेनेव ह्रदादुद्धृतपन्नगा चन्द्रहीनमिवाकाशम् तोयहीनमिवार्णवम् अपश्यन्निहतानन्दम् नगरं ते विचेतसः ते तानि वेश्मानि महाधनानि दुःखेन दुःखोपहता विशन्तः नैव प्रजज्ञः स्वजनम् परम् वा निरीक्ष्यमाणाः प्रविनष्टहर्षाः इत्यार्षे श्रीमद् रामायणे वाल्मीकीये आदिकाव्ये अयोध्याकाण्डे सप्तचत्वारिंशः सर्गः